कृष्णयजुर्वेदतैतरीकसंहितायाम् पञ्चमकाण्डे प्रथमः प्रश्नः प्रारम्भः सारित्राणि जहादिष्प्रथोजे चतुर्गृहे जराति चतुष्पादः पशवः पशोनेवावरुन्धे चदस्स्र दिक्षेव प्रतिष्ठन्दादेवेभ्य वार्क्रामन्न भागानि हव्यं वक्ष्यामहितेभ्य एतच्छतर्कहेतमसारयन् परवाक्यायै न्दाकस्यैव तत्प्रीणादिन्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति यं कामये तपावीयान् स्यादित्यैकैकस्य जहो यादाहुतेभिरेण गृह्णातिपावीयान् भवति यं कामये तपसीयान् स्यादिति सर्वाणि तस्यामत्रत्यजो यादाहुत्यैवेन न विक्रमय दिवसीयान् भवत्यतो यज्ञस्यैवै साविक्रान्त्य एष यज्ञमुखादृत्या देवताया एष्टा वेदानि सा वित्राणि भवन्ति तिष्टाक्षरा गायत्री गायत्रैव यज्ञमुखादृत्याणि भवन्त्याहकर्म भवेत् त्रिवृतमेव यज्ञमुखे च्छन्दागुष्येव यज्ञेशसेना पयदे कामयेदयजमान यज्ञेशसेना पयमं कुर्या यजमानमेव यज्ञेशसेना पयत्कृता स्वमगो समर्थयेत्या समर्थ्ये चतुर्भिरप्रमादत्ये चत्वारिच्छन्दा गो षन्दोभिरेव देवस्य त्वा सविदः प्रसवैत्याह प्रसो देवे कृष्णवत्कल्माशीभवति लोपसमृद्ध्याभवक्ष्णोद्भवती तस्यात्पस्यावरुद्धे व्याममात्रे भवत्येतावत्त्वे पुरुषे वीर्यं वीर्यता भवत्य परिमितस्यावरुद्धे यो वनस्पति ीराम् फलग्रहिस्वैराम् वेद्यावान् फलग्रहिर्वेणर्वैणवे भवति वेद्यस्य अवरुद्धे यद् यजुष्केन क्रियत इमामगर्भन्नामृतस्येत्यश्वाभिधानीमादत्ते यज्ञस्य समृद्धि दधाति रूपमेवा श्रीजन्महिमानं याष्ठेयुञ्जागुरासभं युगमिति गर्तभमसत्येव गर्तभं प्रतिष्ठापये योगे योग एवैनञ्जं के वा देवादेहवामः इत्याहनं वै वादान्नमेवा वरुन्धे योदय इत्याहेन्द्रियमेवावृन्देराय तं प्रजापतिरम्भविन्द प्राजापत्याश्वाश्रे संहरजनमित्यैपापवस्य संवाह एतत् क्रियते यच्छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति पापीयान्त्यस्वाद्यं वर्पन् नयन्ति रुद्रस्यदित्यां निर्यास्यात्मने कर्मेता समष्टिपुरे एकवक्रे देवता नागो समपरं पृथिव्याम्बुरेश्वरस्वीत्याहयेन संगच्छ देवायमेवास्यमङ्गे प्रजापदये संवृत्यैत्या हरियं वै प्रजापतिस्तस्या मुपतिष्ठते साक्षादेव प्रजापदयेख्यदित्याहारुखात्याहेष्ठत्येवैनम्बोर्णया विन्दत्युत्तरया ोऽष्टम् पृथिवे सदस्तमित्या वा एतल्लोकेभ्य प्रजापतिसमये यत्रोकमेवास्येदन्मभिमानम्यादिष्टे वज्री वा एष यदस्व दत्तिरन्यतो दभ्यो यालो मया श्रुमते प्रतिष्ठत्या प्रतिष्ठत्यक्षाञ्च रण्यमुपास्य भृदेत्याह मनसा हि पुरुषो यज्ञमभिगच्छति प्रतिक्षन्दं भुवनानि विश्वेत्याः सर्वेषु गृन्दमित्याहानवदिव्यतिष्ठमन्दगौरव संमितास्मे सर्वमस्मै स्वददेश एवं वेदात्मादिषो स्पृहयुर्वास्कन्दधात्यवचलिमान्भव देभ्यां जोत्याहृत्योरापेवाभ्यां मृदिश्चित्यैज्ञ ेवै क्रियमाणे यज्ञो रक्षागोचेतने फल वा एतत् यज्ञामलिखति रक्षागस्य वहन्ति गायत्र्यालिखतिबली तिष्ठदीन्द्रियं वै तिष्ठीन्द्रिये देवैर्णाच वालिखति चर्वाणि ष्टभावास्माचावदामो गायत्र्या प्रथमयापर्यथा नष्टभाजे यो वै गायत्री यत्नोऽष्टवेन्द्रियम् दृष्टब्दे यथा शैवेन्द्रियेण शोभयतो यज्ञम् परिगृह्णाति देहस्य त्वा सवितः प्रसव इति खनदिप्रसो गमित्याैतेन जनयति सोऽप्रजाश्रुचार्पयत्वेन प्रियाभ्यामित्या प्रियाप्य एवं पृष्ठमेन पुष्करवर्णमाहृत्य पुष्टं य पुष्करवर्णगोरूपेणैवेन दाहरति पुष्करवर्णेन सम्भरति याज्ञे पुष्करवर्णगोदयामैवाग्निगो संभरति कृष्णार्जुनेन सम्भरति ज्ञायि कृष्णार्जुन यज्ञेनैव यज्ञगो संहरति यं राम्याणां पुरुषोणां च राम्यान् पुरुषो श्रीरात्मये कृष्णार्जुनेन सम्भरत्यारण्यानेव पुरुषोन् श्रीरात्मये कृष्मात् समावत् पुरुषोणां प्रजाय ेनैवेन गोम्भरत्वारवर्णेभ्य ेव गायत्रेऽभिप्राह्मणस्य गायत्रोऽभिप्रामनस्तुष्टिन्यस्य त्रैष्टामयेभरे तेजष्ठैवास्मा ष्टाक्षरा गायत्री गायत्रोऽवारित्याम् प्रजनेति त्याखनत्य प्राणो वै वायुप्राणेनैवास्ति वायुप्रच्युतास्मै च देव्यमित्या हरिष्टर्वानुवर्षदि ध्यातयामास्य नित्यामाव षट्कारो भवत्य सर्वाणि छन्दागं सि छन्दातिवेदकोपासो भव ृतिश्चेतया प्रमादभ्योषादरस्वाभ्य एव मृत्या वैदश्च शूनां संहरति तस्मात् दर्शने संभरन्ति गर्तपेन संभरतिरस्मात् कर्तभोष्ठं पशूनां आर्राक्ला इत्याल भॉच्छ आम्source Gya living funds आंञान स्वेश कोर्दंग, तक्रम रादान से खते killing आंज और मुस्थ भॉच्छ भर्ट आंड इक्स्ट tuस् सुद्रा मांना कर्ण्ग не कृत्व नेंड कोर बाति लिक्त्त crashes ya Service going युषप्रेत्यायुदेवास्मिन्दधा जदस्माः सर्वमायुरे जलस्मा पुरायुषीरेव्याः वृषात्ेषात्पाङ्गर्भो समुद्रयत्रग्याहि वेतयति त्याशान्मापोष्ठित्वा ोषधय प्रदुमोद थी कखड़नि थी त maior notötостri oso तो नियुट्या मां फिर मांट एल और जाफित्यग सब्सकु misura अई�hos नमिर्काऊनिय भीक्राथ्य विदेख वेऔ अज भेत्या सवेवेन मम् पधिश्ठा गस्पाम इस्व। रुणो वाग्निरुपनद्वो विवाचसेति विस्रगोसे सितृप्रसोद एवास्य विशोदीं मरणमे शान्ता शान्ताभिरेवास्य कृत्वाग्निर्यावानैवाग्निस्तस्य सुजगो शमैतमित्रस्य पृथिवी मित्याहमित्रो वै शिवो देवानान्देनैवै ने यत्राम्याणाम् पात्राणां कपाले ृजेत्राम्याणि पात्राणि सुतार्पये धर्मकपालये सगं सृजत्येतानि वा अनुपजीवनीयानि तान्येव सुतार्पयस्सगो सृजति सृज्च कृष्णाजनस्य कृष्णार्जनं यज्ञा पृथिवीविद्या हैता वा एतन्नस्य पदे स्थैत्याहै प्राण्याभिन्मन्देर्मयत्वा यत्रेङ्गत्रय लोका एषा लोक रामात्रे वै छन्द्या श्रीवेजदुषाभिलङ्कर दिव्यालिङ्करप्रजापदनाय संमिताङ्गस्थलाङ्गर्याङ्गशोनान्दोहायाष्टास्तनाङ्गसान्दोहाय श्रिमभिजलो प्रतिष्ठापयति ो वैलसप्तवैकेषुण्या प्राणाश्रर एतद्यज्ञस्य य लुखाशीर्षन्नेव यज्ञस्य प्राणान् ददा सप्तशीर्षन् प्राणाश्व वैलप्राजापत्यो वायं वा नित्यैवादित्याङ्कनत्यस्या क्रो रङ्गारायणो हिनस्य न्ताभिरेवेणा दधातिषणास्वत्याह विद्या वै भूषणा विद्याभिरेवणां वेन्द्रयग्नास्पेत्याः छन्द्रागुरुवैग्नाच्छन्दाभिरेवेणामश्रमयरिवरोत्रयस्वेत्याहोत्रा वैमरो त्रयो होत्राभिरेवेणां वचद जनयस्वेत्याः देवानां वै गृत्ययस्ताभिरेवेणां वचति षट्टि वचत षट्वासभाभिरवेणा ेवेनां क्षीरेणाक्षणन्ते परम्बादे क्षेरम् परमेणैवैनाम्भयसाक्षणन्ते काव्यावृत्ति छन्दोगराक्षणन्ति छन्दोपादेशान्दोगरे छन्दोकस्या एकविवंशत्या पुरुषशीर्षमध्येत्यमेध्या वै वा श्यामेध्यं पुरुषशीर्षमेध्यैरेत्यन्यकविर्भवन्त्येकविषः पुरुषश्च प्राणेन पुरुष शीर्षकं सत्तमेकमपा प्राणैरेवैर समर्थयति मेध्यत्वा यावन्तो स्तेशायमादिवत्यम्बरीयाय राधायमादेवैन लोकायेभ्य एव लोकेभ्यो वृन्दे तस्माय देन दे हिङ्गाहित वृन्देभ्यः प्रसो नायमावाग्मानेवा वृन्दे प्रसोन्नाय भेदालव्याद्य स्थापयेत् यज्ञा वै प्रजापतिष्ठापय प्रजापति प्रजापश्यताभि शो नेवा वरुन्धे सर्वाणि वा एतारूपाणि सर्वाणि रूपाण्यक्नोति चेतस्मादेतांसामिकविंशरुचमेव गच्छत्यतो प्रतिष्ठामेव प्रतिष्ठात्येकवि ग्निं वर्धयन् ऋभिः संवत्सरं विश्वाहि प्रदिश पृथिव्यायस्मादग्निर्वादिशो नो हता विश्वनामृत्यस्मादित्याः मृत्युमेवास्मादमद ञन्नोतिरुत्तममित्याो ज्योतिरुत्तमृत्यस्यैवत्यङ्गयस्यैता प्रयङ्गे ज्योतिष्मदेव उत्तमा ज्योतिरेवास्मा उपरिष्टादधार्गस्य लोकस्यानुख्यार्थी ृत्येक्षयति षट्वारदवर्दभिरेवेलं नीक्षयति सप्तभिर्नेक्षयत् सप्तछन्दा छन्दोभिरेवेलं नीक्षयत् विश्वे देवस्य जुहोदि वाक्पादनुष्ठक्तस्मात् प्राणानां वागोत्तमयस्वाक्षरामं वरन्द स्वाचिपाचोलां मनुष्यापजीवन्दि पूर्णया जुहोदिपूर्णैर्प्रजापतेरावते राक्ष्योनया ज्योति ेषु भविष्यल प्रवृणग्निभविश्ववावृन्धे भविष्यद्विभूय भूतायुखादायमानो हन्य ये सम्भवेत् स एव तस्य स्यादवत्यैष्वैस्मो भवत्येवत्यावदस्या देवा स्वै प्राञ्जनेभ्यो निदायुखं प्राविशक्रमुखमवदथावरुन्ध आज्येन समर्थय तेजसावैकम् गति हिमादधातिभाेवावृन्धेश मेम हेमादधा दिशाम् मातुरस्यात्मत्यापदिक्षते त्रेमे लोका एष्वेव लोकेष्वाविदम् गच्छत्यतो प्राणानेवात्मन्धत्ते नः स्म वै पुराग्निरपरशुरग्नन्दहति तदस्मै प्रयोग एवस्मैस्मै स्वदते एवं वेदोदुम्बरीमासधात्योर्वादुम्बरवास्मापि ददापतिरग्निमसोष्ठो रक्षागस्य ेव मादधात्यश्वत्वा वैस्वती औदम्बरे वाचयति ब्रह्मणैव क्षत्रगो सगृश्यति क्षत्रेण ब्रह्म तस्मात् ब्राह्मणो राजन्यमानजन्यं रा ृत्युर्वा एषत्येव मृत्योरन्तर्धत्र एकविकंशति निर्वासो भवत्यैकविकंशिधर्वै देव लोकाद्वादशमासाः पञ्चत्तवस्त्रयमे लोकासावादित्य एकविकंश एतावन्तो वै देव लोकास्तेभ्य एव भ्रातृमन्तरे निर्वाचैर्वै देवासुरा ्रातुया रात्राभ्यामेव देवाग्न्धारयन्द्रविमादा प्राणावै देवा द्रविमादाहोरात्राभ्यामेव प्राणेता धाराजेन प्रचाजना प्रजा प्रजायन्द्रेष्णा ैरण्यम् ब्रह्मकृष्णा जलम् देजोद्यामगो संवत्सरेणैवम्पत्यमेवा श्रीजन्महिमानम्पदेम् लोकङ्गमयति अन्यम् कृतम् मदीनाम् कृतमज्ञेमदमप्युन्नमानः वाजीवाहमवाचिनम् जातवेदो देवानाम् वक्षिप्रियमासम् कृषश्चन्दावस्वस्मै यजमाना यश्चिमन्यश्च वाजिनाशश्च शिमेध्यश्च सत्ते अग्निष्ट्वा देवैर्वसुभिः सजोषा प्रीतम् सुष्ठरीमाजुषाणोरु देवेऽभिर्युक्तमति सजोषा स्योनम् गृह्णा सुधातु एताभगा विश्वरूपा विवक्षोभिश्रयमाणावदादे कवशृम्भमानारो देवे, देवे सुप्रायणा भवन्तु सुन्दरामित्रा वरुणाचरन्ते मुखम् यज्ञानामभिसंविधाने सुशासा वागुंस हिरण्ये सु शिल्पे रथस्य यो न साधयामि रथमा वागुंस रथिना सुवर्णा देवो पश्यन्तो भवनान विश्वा अभिप्रयञ्जोदना वाम्यमानाहोता राज्योतिप्रतिशा दिशन्ता आदित्यैर्ना भारतीयज्ञको सरस्वतीसहृद्रैर्नावीर्य इत्यन्ना देवीरमृतेषु कामञ्जानत्वम्पादयतु प्रजापते स्तमसा वाधानः सत्यजातोदधिशे यज्ञमज्ञे स्वाहाकृतेन हविषा पुरोगायाहि साध्या देवा इति पञ्चमकाण्डे प्रथमः